यस् नमस्कारः एण्ड् नाम सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अत्र अस्माकम् अद्य नूतन नूतनप्रवचन् नूतनकरपत्रं वर्तते तस्मात् प्राक् किञ्चित् वक्तुमिच्छामि इत्युक्ते अस् अस्मिन् जीव अस्मिन् जीवने अस्मिन् जगति कियदपि कार्यं भवतु नाम तस्मिन् विषये यदा अस्माकं रुचिः अस्ति इति कृत्वा वयं कुर्मः तथापि किञ्चित् कालानन्तरं तत् कार्यं नीरसं भवति तत्र तस्मिन् जामिता आयाति बोर्डम् आयाति यत्किमपि भवतु इत्युक्ते क कस्यचित् पुरुषस्य किमपि खाद्यपदार्थमस्ति चेत् तस्य तस्मिन् पदार्थे तस्य रुचिः अस्ति परन्तु एकस्मिन् दिने यदा सः बहु किमपि खादति तथापि पुनः तत्र किञ्चित् कालानन्तरं तस्मिन् रुचिः अपि गच्छति उदरमपि पूर्णं भवति एवम् अन्यः पुरुषः अस्ति यः यस्य यस्य कृते तत्र निद्रा बहु आ, बहु बहु रोचकः अस्ति निद्रा निद्रायाः विषये तस्य रुचिः वर्तते इति तथापि यदि सः विमाने गच्छति अथवा रेल्याने गच्छति तत्र बहु बहुकालपर्यन्तं निद्रां करोति चेत् तदानीं तस्मिन् विषये अपि निद्रायाः विषये तस्य नीरसता भवति अथवा जामिता भवति एवं कस्यचित् कृते तत्र तरणं तरणमिति तत्र नद्यां तरणं बहु बहु बहु तस्य कृते इष्टं वर्तते तथापि यदा तत्र किञ्चित् कालपर्यन्तं सः तरणं करोति तद् तत्पश्चात् तस्य कृते तत् कार्यं तस्मिन् तत्र रुचिः न वर्तते इत्युक्ते रुचिः गच्छति नीरसता आगच्छति यदि कस्यचित् पुरुषस्य पार्श्वे बृहत् गृहमस्ति बहु सम्यक् अस्ति सर्वमस्ति तत्र सर्वविधसौकर्यम् अस्ति तस्मिन् गृहे तथापि किञ्चित् कालपर्यन्तं कालानन्तरं तदेव गृहं तस्य कृते नीरसं भवति तदानीं सः चिन्तयति अहं बहिः गच्छामि पर्वतं प्रति गच्छामि तत्र सम्यक् भवति इति चिन्तयति अथवा कश्चन पुरुषः पर्वते वर्तते तत्रैव तस्य गृहम् अस्ति सर्वं बहु सुन्दरम् अस्ति सर्वत्र पश्यति बहु सम्यक् अस्ति परन्तु तथापि तस्य कृते तत् कालानन्तरं तत्रैव गृहम् अस्ति चेदपि तस्य कृते तद सम्यक् न भवति इत्युक्ते तस्य कृते नीरसता आगच्छति तर्हि सः किं करोति तदानीं सः अन्यत्र गृहस्य अन्वेषणं करोति अत्र अस्माकं जीवनार्थं तु भोजनम् आवश्यकमस्ति गृहम् आवश्यकमस्ति अस्माकं जीवनार्थं तत्तु भिन्नवार्ता अस्ति, अस्ति, अस्ति। परन्तु जगति यानि वस्तूनि सन्ति अस्माकं लौकिकसुखानि यानि सन्ति लौकिकभोग्यपदार्थाः ये ये सन्ति ते सर्वे अपि क्षणिकाः इत्युक्ते कालानन्तरे कालानन्तरं तत्र यः कोऽपि भवतु यः कोऽपि अथवा यत् वस्तु भवतु नाम लौकिकवस्तु का किञ्चित् कालानन्तरं तस्मिन् विषये अस्माकं भवति तस्मिन् नीरसता आगच्छति तर्हि इदानीं प्रश्नः अस्ति किमर्थम् एवम् अस्ति किमर्थम् अस्माकं मनसि नीरसता आगच्छति यः कोऽपि विषयः भवतु तस्मिन् विषये अस्माकं बहु इच्छा आसीत् खलु पूर्वं तरणमित्युक्ते मम कृते बहु रोचकम् तर्हि किञ्चित् कालानन्तरं किमर्थं तस्मिन् विषये नीरसता आगच्छति इति प्रश्नः आयाति तर्हि तत्र उत्तरं किम् इति चेत् तत्र नीरसता किमर्थम् आग आगच्छति यतोहि जगति यानि यानि वस्तूनि सन्ति भोग्यपदार्थाः ये ये सन्ति ते सर्वे अपि क्षणिकाः क्षणिकाः अस्माकं मनुष्यस्य अनन्तेषणा वर्तते अनन्तेषणायाः पूर्तिः एते एतैः लौकिकवस्तुभिः कदापि न भवति अयमेव कार कारणमस्ति येन लौकिकवस्तुभ्यः का अस्माकं Uh, नीरसता आगच्छति यतोहि uh, यदा तत्र uh, इत्युक्ते तत्र uh, uh, नीरसता किमर्थम् आगच्छति लौकिकवस्तुभ्यः इति चेत् तत् तस्मात् यत् सुखम् आयाति तत् सुखमपि अस्माकं कृते न रोचते तत् सुखमपि रेपिटेटिव् भवति ओ मया पूर्वं कृतं तर्हि पुनः किमर्थम् एतद् मया तु पूर्वपूर्वमेव मया अनुभूतं एतत् कार्यं मया कृतम् अनुभूतं तर्हि पुनः अहं करोमि चेत् तस्मिन् विषये अस्माकं जामिता आगच्छति नीरसता आगच्छति जामिता आगच्छति यदा समानकार्यं कस् कस्मिंश्चित् कस्यचित् जीवने पुनः पुनः दिने वयं कुर्मः यदा वयं यदा वयं प्रतिदिनं समान समान पदार्थं गुञ्ज्मये समान खाद्यपदार्थं यदा वयं प्रतिदिनं खादामः तदानीमपि तत् खाद्यम् अस्माकं कृते सम्यक् न भाति ओ मया तु ह्यः अपि मया एतदेव खादितं पुनः अद्यापि एतदेव खादितं किमपि नूतनं भवेत् खलु इति तत्रापि अस्माकं तृप्तिः न भवति इत्युक्ते यः यत् यत् अस्माकं कृते बहु सम्यक् आसीत् पूर्वं परन्तु इदानीं तदेव प्रतिदिनम् अहं खादामि इति कृत्वा कस्यचित् पुरुषस्य आम्रपलम कस्मैचित् पुरुषे पुरुषाय आम्रफलं बहु रोचते तर्हि सः यदि प्रतिदिनम् आम्रफलं खादो खादति तर्हि किं भवति किञ्चित् कालानन्तरं तस्मिन् विषये जामिता आगच्छति नीरसता आगच्छति सर्वदा कृते द ग्रास् इस् ग्रीनर् एल्फवेर् अन्यत्र सम्यक् अस्ति भाति जगति अत्र लौकिकसुतं लौकिकसुतं लौकिकसुखं क्षम्यतां लौकिकसुखं बहु रेपिटेटिव् अस्ति पुनः पुनः वारं वारं यदा भवति तदानीं तदेव अस्माकं कृते सुखं न भवति सुख सुखरूपेण वयं न पश्यामः तद् यतोहि पुनः पुनः तस्मिन्नेव कार्ये वयं यदा प्रवृतामः तदानीं तस्मात् अस् सुखं न भवति एतादृश एतादृश अस्माकं मनसि आयाति खलु एत दोषपूर्णचिन्तनम् अस्माकं मनसि आयति ओ अयं पुरुषः तु सम्यक् अस्ति सः तु सुखी अस्ति अहं न अस्मि तस्य कृते सर्वम् अस्ति मम कृते किमपि नास्ति इति एतादृशचिन्तनं दोषपूर्णचिन्तनम् अस्मा अस्माभिः तादृशचिन्तनं दूरीकरणीयं तादृशचिन्तनं सम्यक् नास्ति एतादृशचिन्तनम् अस्मान् इत्युक्ते इत्युक्ते अस्मान् सत्यात् अथवा Uh, वास्तविक वास्तविकयथार्थात् अस्मान् दूरीकरोति तादृशचिन्तनम् इति कृत्वा तादृशचिन्तनं कदापि अस्माभिः न करणीयं यत् अहं न सुखी अन्यः सुखी अस्ति मम कृते सर्वदा दुःखमेव अस्ति यदा कोपि पुरुषः तस्य विवाहः न जातः तदानीं सः अन्यः अन्यः यः पुरुषः विवाहितः अस्ति तं दृष्ट्वा तस्य मनसि मनसि आयाति ओ पश्यतु अयं तत्र <laughs> न, तत्र सः मम मित्र सः मम मित्रं यः अस्ति सः तु सम्यक् अस्ति सन्तुष्टः अस्ति अहं तु नास्ति मम विवाहः नास् न हा ना विवा ना, ना जातः इति कृत्वा मम सन्तोषः नास्ति इति सः चिन्तयति परन्तु सः न अवगच्छति यत् अन्यः यः पुरुषः अस्ति यः विवाहितः अस्ति सः बाह्यरूपेण सन्तुष्टः एव दृश्यते परन्तु तस्य गृहे वयं गच्छामः चेत् तदानीम् अवगच्छ अवगन्तुं शक्नुमः यत् तत्र दम्पत्योः मध्ये तादृशव्यवहारः नास्ति एकः अन्येन सह वार्तालापमपि न करोति इति तादृशं वयम् अवगन्तुं शक्नुमः इति कृत्वा सर्वदा अन्यत्र वयं पश्यामः चेत् तत्र सः सन्तुष्टः अस्ति इति भाति ये यद् यच्चक्रम् यत् चक्रम् अस्ति सर्वदा गच्छति किमपि इच्छामः तद् यदा लभ्यते तदानीं तस्मिन् नीरसता आगच्छति तद् तदनन्तरं पुनः अन्यत् किमपि इच्छामः पुनः तद् लभ्यते तस्मिन्नपि नीरसता आगच्छति जामिता आगच्छति तेनापि सन्तोषः न लभ्यते यत्किमपि बृहद् गृहं वा भवतु यत्किमपि वा भवतु तथापि अस्माकं सन्तोषः न भवति किमर्थम् इति चेत् एतादृश एतादृशसुखं निरन्तरसुखं नास्ति एतद् एतादृशसुखं निरन्तरसुखं लौकिकवस्तुभ्यः निरन्तरसुखं न लभ्यते क्षणिकसुखम् एव लभ्यते वयं क्षणिकसुखात् तृप्ताः न भवामः इत्येव विषयः अस्ति वयं क्षणिकसुखात् तृप्ताः न भवामः अस्माकं जीवने सर्वदा सुखं भवति दुःखं भवति सुखं भवति दुःखं भवति इति तत्र चक्रम् अस्ति सुखदुःखयोः चक्रं सर्वदा सुखदुःखयोः चक्रमस्ति सुखं यदा लभ्यते तदानीं क्षणिकरूपेण सन्तोषः भवति पुनः किमपि दुःखं भवति चेत् पुनः वयं दुःखिताः भवामः पुनः सुखं लभ्यते पुनः दुःखिताः भवामः एवं रीत्या अस्माकं जीवनं चलति सर्वदा एवमेव चलति यदा दुःखं भवति तदानीं जनाः ओ अहम् एतत् करोमि अस्मात् मम सुखं भवति इति कृत्वा अहम् एवं करोमि इत्युक्ते कश्चन पुरुषः बहु दुःखितः अस्ति तस्य पत्नी तस्मात् तत्र तत् तस्य विवाहः स्थगितः जातः सः इदानीं बहु अस्ति सः चिन्तयति ओ एवम् अहम् इदानीं पर्वतं प्रति गच्छामि तदानीं मम शान्तिः भवति मम सुखं भवति इति सः चिन्तयति परन्तु यदा सः पर्वतं प्रति गच्छति तदानीमपि तस्य दुःखं न गच्छति तदानीमपि तस्य तस्य पत्न्याः विषये तस्य चिन्तनं भवति तस्य स्मरणे आगच्छति इति कृत्वा तत्र सर्वदा लौकिकवस्तुभ्यः तत्र द बाण्डेज् The cycle of pleasure and pain, hmm? a cycle of pleasure and pain continues and a uh, cycle of pleasure and pain, that's the bandhanam api karoti, bandhanam api karoti, asmaat karanaat kim janaha kim kurvanti iti chet sarvada sukha si anveshanam kurvanti janaha, sukha si anveshanam kurvanti, parantu yetadrish jamita ya jamita asti, laugika vasubhya ya jamita asti, sa jamita इति uh, तत्तु पासिटिव् सैन् अस्ति जामिता इफ् यू गेटिङ्ग् बोर्ड् फ्राम् योर् डेली आक्टिविटीस् दट् इस् अ गुड् सैन् किमर्थं गुड् सैन् तादृशजामिता साधनायाः विषये बहु मुख्यविषयः अस्ति जामिता साधनायाः विषये बहु मुख्यविषयः अस्ति किमर्थम् इति चेत् यदा लौकिकवस्तुभ्यः वयं न तृप्ताम तृप्ता तृप्तिः भवति लौकिकवस्तुभ्यः तृप्तिः न भवति तदानीमेव वयं चिन्तनं कुर्मः किमर्थं लौकिकवस्तुभ्यः तृप्तिः न भवति कस्मात् मम तृप्तिः भवितुमर्हति इति तदानीं तत्र जिज्ञासा भवति ओ किं किं किं प्रा किं किं वस्तु अस्ति लोके किं वस्तु अस्ति कस्मात् वस् वस्तु वस्तुतः अहं निरन्तरसुखं प्राप्तुं शक्नोमि इति तादृशचिन्तनं भवति तत्र यदा जामितायाः विषये अस्माकं अवगमनं भवति यत् लौकिकवस्तुभ्यः जामिता अस्ति मम तदानिम् तस्मात् एव साधनायाः विज्ञानमपि वर्धितम् इत्युक्ते तत्र पूर्व पूर्वकाले ये ऋषयः आसन् ते आ, ते अवगतवन्तः यत् लौकिकवस्तुभ्यः मम निरन्तरसुखं न भवति इति कृत्वा कथम् अहं निरन्तरसुखं प्राप्तुं शक्नोमि इति कृत्वा एव ते साधनायाः विज्ञा, विज्ञानं वर्धितवन्तः इत्युक्ते तत्र वस्तुतः लौकिकवस्तुभ्यः जामिता भवति एतत्तु सम्यक् अस्ति यतोहि तदेव अस्माकं कृते ड्रैविङ्ग् फोर्स् भवति आध्यात्मिकसाधनां कर्तुं यदा तत्र बोर्डं नास्ति बोर्डं नास्ति इत्युक्ते लौकिकवस्तुभ्यः वयं सन्तुष्टः भवामः तदानीं तत्र आ, तत्र किमपि अग्रे अग्रे कर्तुम् अस्माकं प्रेरणा न भवति यदा लौकिकवस्तुभ्यः जामिता भवति नीरसता भवति एण्ड् बोर्ड् इति यदा भवति तदानीं तत्र किमपि अन्यत् अन्यस्य अन्वेषणं भवति तदानीं तस्य अन्तश्चक्षुः उद्घाटितः भवति यदा कोऽपि लौकिकवस्तुभ्यः तृप्तः इत्युक्ते मम सम्यक् गृहमस्ति मम इतोपि आवश्यकमस्ति मम धनम् अस्ति इदानीं तत्र पशुजीवने एव वयं तृप्ताः भवामः तदानीं तत्र अन्यत् अन्यस्य अन्वेषणस्य इच्छा कदापि न भवति आनिमल्स् डोण्ट् गेट् बोर्ड् uh, तत्र पशूनाम् अथवा पक्षीणाम् एतादृशजामिता न भवति ते तु तृप्ताः भवन्ति तेषां तु सन्तोषः अस्ति यदा का तत्र भोजनं लभ्यते सुरक्षितस्थानमस्ति अपि च तत्र मैथनस्य अवकाशः अस्ति तत्सर्वम् अस्ति चेत् आहारनिद्राभयमैथुनम् अस्ति चेत् ते तु सन्तुष्टाः भवन्ति तेषां कृते जामिता इति विषयः एव नास्ति केवलं मनुष्याणां विषये जामिता भवति uh, किमर्थं मनुष्याणां विषये जामिता भवति बोर्डं भवति इति चेत् केवलमनुष्येषु अनन्तेषणा वर्तते पशुषु पक्षिषु अनन्तेषणा नास्ति यदि कोऽपि मनुष्यः अहं लौकिकवस्तुभ्यः वस्तुभ्यः बहु सुखी अस्मि मम मम जामिता नास्ति नीरसता नास्ति इति कोऽपि वदति इत्युक्ते क कश्चन पुरुषः अस्ति तस्य कृते सर्वम् गृहमस्ति एतदस्ति सर्वमस्ति धनमस्ति सर्वमस्ति सः लौकिकवस्तुभ्यः जीवने, सः बहु सन्तुष्टः अस्ति मम जामिता नास्ति इति कोपि वदति चेत् सः पुरुषः प्रायेण तत्र असत्यं वदति यतोहि तादृशं कदापि न भवितुम् अर्हति अतः अत्र किं इच्छामि इति चेत् अन्ततो गत्वा यदा अस्माकं जामिता भवति लौकिकवस्तुभ्यः जामिता भवति तदेव सङ्केतः अस्ति कस्य सङ्केतः आध्यात्मिकप्रारम्भस्य सङ्केतः आध्यात्मिकजीवनस्य प्रारम्भस्य सङ्केतः अस्ति तादृशजामिता यतोहि तादृशजामिता अजामिता आवश्यकी अस्ति अग्रगती प्राप्तुं साधनायाम् अग्रगतिं प्राप्तुं जामिता आवश्यकी अस्ति यदा जामिता भवति तदानीं वयम् अवगन्तुं शक्नुमः लौकिकवस्तुभ्यः मम तृप्तिः कदापि भवितुम् न अर्हति कस्मात् मम तृप्तिः भवितुम् इति चेत् अनन्तस्य प्राप्तिः यदा भवति तस्मात् एव मम तृप्तिः भवितुम् अर्हति इति तदा तदानीं वयमवगन्तुं शक्नुमः यत् तत्र साधना इति कश्चन विषयः अस्ति तस्यां मम प्रवृत्तिः भवतु यदा साधनायां प्रवृत्तिः भवति तदानीम् एव अनन्तस्य प्राप्तिः भवति तद्वारा मम निरन्तरसुखं आत्यन्तिकदुःखनिवृत्तिः निरन्तरसुखं सर्वं मम लभ्यते इति कस्यचित् पुरुषस्य अन्तश्चक्षुः उद्घाटितः भवति तदानीं तत्र अग्रगतिः अपि भवति अतः जामिता इति विषयः अति आवश्यकी अस्ति साधनायाम् अग्रगतिं प्राप्तुम् इत्युक्ते लौकिकवस्तुभ्यः अस्माकं नीरसता भवेत् नीरसता भवेत् नीरसता आवश्यकी नीरसता अस्ति चेत् तदानीम् अस्तु एतस्मात् लौकिकवस्तुभ्यः मम कदापि अग्रगतिः न भवति करा कदापि मम यद् अनन्तेषणा वर्तते तस्याः तृप्तिः न भवति इति कश्चन पुरुषः अवगच्छति इति अत्र उक्त्वा वयम् अग्रे गन्तुं शक्नुमः अस्माकं करपत्रं प्रति तर्हि अत्र अद्य नूतनसमये ओके okay, ओके okay. इदानीं क्षम्यतां क्षम्यताम् किमस्ति ब्रह्म वर्तते अपि च तत् ब्रह्म समष्टिरूपेण परमात्मा भूमचैतन्य समष्टिचैतन्य वा चैतन्यम् इति निरूपितम् भूमचैतन्य वा समष्टि चैतन्य चैतन्य समीपेण चित्शक् पूर्व व्याख्यात आसी ये प्रकृति पुर चैतन्य तत्व अपूर्वशक्ति अस्ति इति अपि च स पुरुषं गोदान्वितं करोति प्रकृतिः पुरुषस्य तत्त्वम् अस्ति पुरुषः प्रकृतिः च यद्यपि द्वे पृथक् सत्ते स्तः तथापि द्वे अपि परस्परं सम्यक्तया सम्बद्धे इति कृत्वा दयोः पृथक्करणं कथा कदापि न सम्भवति यथा अग्निः च तस्य हकशक्तिः इत्यनयोः पृथक्करणम् अवश्यम् अशक्यं तथैव प्रकृतिपुरुषयोः पृथक्करणमपि अशक्यम् प्रकृतिः अपूर्वा शक्तिः अस्ति स गुणयुक्तं करोति यद्यत् तत्त्वं वा शक्तिः वा कस्मैचित् वस्तुनि लक्षणं वा गुणं वा तत् तत्त्वं तस्मात् पृथक् कर्तुं न शक्यते तथैव पुरुषः प्रकृतिः च द्वे सत्त्वे द्वे पृथक् तयोः विच्छेदः कदापि न शक्यते अतः यत्र यत्र प्रकृतिः अस्ति तत्र तत्र पुरुषः अवश्यं भवेत् तेषां सामूहिकरूपेण ब्रह्म इति नामकरणम् तत्र किमपि नूतनं नास्ति वयं पूर्वमेव दृष्टवन्तः ब्रह्म इत्युक्ते परमात्मा समष्टिरूपेण ब्रह् भूमचैतन्यम् अपि वक्तुं शक्यते सः ब्रह्म प्रकृतिपुरुषरूपेण द्वे सत्ते वर्तते तदा प्रकृतिपुरुषः इति वता कदा पृथक न संभवती यहाँ ताकशक्ति पृथकरण न संभवति तथा प्रकृति पुषमध्ये कदा भवति ते सदा मिलित्वा एव वर्त यथा यत्र यत्र प्रकृतिः वर्तते तत्र तत्र पुरुषः अवश्यम् एव वर्तते वा भगिनि प्रकृतिः पुरुषं गुणाङ्गितं करोति एव वर्तन्ते okay. समीचीनम् आम् इति एव विषयः अस्ति सम्यक् तर्हि गत गतकरप गतकरपत्रे मनुष्यस्य मनसः विषये चर्चितवन्तः मनसः त्रयः भागः सन्ति इति उक्तवन्तः कथं मनसः निर्माणं भवति इत्यपि उक्तं यदा स्व प्रकृतिः स्वस्याः भिन्नैः त्रिभिः गुणैः सत्त्वगुणः रजगुणः तमोगुणः इति एतैः गुणैः क्रमेण पुरुषे स्वप्रभावं जनयति तदा मनसः त्रयः भागाः कथम् अस्तित्वं प्राप्नुवन्ति इति विषये वयं चर्चां कृतवन्तः खलु तत्र प्रथमं सत्त्वगुणस्य प्रभावेन अहम् अस्मि इति भावः सृज्यते तदा तदेव महत्तत्त्वम् इति वदामः ततः रजोगुणस्य प्रभाव यदा त महत्तत्त्वे भवति तदानीं अहं तत्त्वम् इति सृष्टं भवति अहं तत्त्वम् इत्युक्ते यः कार्यं कार्यस्य कर्ता सः तदेव अहं तत्वं ततः अहं तत्वे तमोगुणस्य प्रभावेन चित्तं निर्मितं भवति चित्तं मनसः चलचित्रपटः अस्ति पटः सः भवति अतः वस्तुतः मूलद्रव्यं यस्मात् सर्वं निर्मितम् अस्ति तदस्ति एषः पुरुषः सः पुरुषः गुणान्वितः गुणा वस्तुतः यः पुरुषः अस्ति सः निर्गुणः अस्ति मूले पुरुषः निर्गुणः अस्ति गुणातीतः अस्ति यदा प्रकृत्या सह तत्रापि प्रकृत्या सह एव अस्ति यदा निर्गुणावस्थायाम् अस्ति तदानीमपि प्रकृत्या सह एव अस्ति परन्तु तत्र प्रकृतिः स्वप्रभावं जनयितुम् असमर्था अस्ति तस्य विषये अधिकं वयं पश्यामः अस्मिन् प्रवचने सः पुरुषः निर्गुणावस्थायां तिष्ठति अतः समुद्रः इव अस्ति समुद्रः इव अस्ति यदि वयं यदि वयं महोदय अत्र मूलपुरुषः इत्युक्ते अत्र आमां पुरुषः एकः एव पुरुषः एकः एव केषुचित् स्थलेषु निर्गुणः भवति केषुचित् स्थलेषु सगुणः भवति यत्र प्रकृत्याः प्रभावेण गुरु पुरुषः गुणान्वितः भवति तदानीं सः सगुणः भवति यत्र गुणान्वितः न भवति गुणातीतः भवति तदानीं सः निर्गुणः भवति पुरुषः एकः एव पुरुषः एकः एव मूलः इत्युक्ते मूलः इत्युक्ते मया निर्गुणः इति वक्तुं इष्टवती तर्हि यदि वयं तत्र पुरुषः समुद्रः इति वयं चिन्तयामः पुरुष तत्र समुद्रे जलम् अस्ति जलमेव पुरुषः समुद्रं समुद्रजलं पुरुषः इति चिन्तयामः चेत् तत्र यत्र प्रकृतिः पुरुषं गुणान्वितं कृत्वा पुरुषं प्रभा प्रभावयितुम् तदा तत्र जले हिमद्वीपाः द्वीपाः सन्ति इति चिन्तयितुं शक्नुमः ऐस्बर्ग् हिमद्वीपाः सन्ति इति चिन्तयितुं शक्नुमः यत्र प्रकृतेः प्रभावः भवति येन पुरुषः गुणान्वितः भवति तदानीं तत्र हिमद्वी इति चिन्तयितुं शक्नुमः अतः अत्र प्रकृतिः पुरुषः द्वौ अपि उभौ अपि अनादि सह कारणरहितौ सह कागदस्य द्वे तत्र द्वौ भागौ यथा सः तथा अनयोः पक्षद्वयमेव कागदस्य कागदखण्डस्य पक्षद्वयमेव अनयोः स्थितिः अस्ति द्वयोः पृथक्करणं कदापि न शक्यते द्वयोः मिलित्वा वयं ब्रह्म इति वदामः शिवशक्त्यात्मकं ब्रह्म शिवशक्त्यात्मकं ब्रह्म शक्तिः सा शिवस्य शक्तिः शिवः पुरुषः शक्तिः प्रकृतिः ब्रह्म ब्रह्म एव प्रकृतिपुरुषयोः मिलित्वा नामकरणं ब्रह्म ब्रह्मणः ब्रह्मवसुतः अनादि अनन्त अनन्तसत्ता आदिः अपि नास्ति अन्तः अपि नास्ति भ्रमणः भ्रमणः अवयवद्वयम् अस्ति प्रकृतिः पुरुषः इति द्वयोः अवयव अवयव अवयवयोः अपि अनादित्वम् अनादित्वम् अस्ति अन्तत्वं नास्ति अनादि अनन्त अनन्तत्वम् अस्ति अन्तत्वं नास्ति अनन्तत्वम् अस्ति इति वक्तुं शक्नुमः अस्तु इदानीं किञ्चित् अग्रे गच्छामः तत्र किम् शान्ताभगिनी पठितुमिच्छति वा अस्तु विजयाभगिनी पठतु यात्रामध्ये अस्ति महोदय कृपया क्षमिता अस्तु अस्तु तर्हि सरिता भगिनी भवती एव जानमचतन्य चेतनाष्ट अस्थ है एक कैसे अस्तिवेस्ट है परंतु तस् आकृति वल्पय नक् अस्मक भावनाया वस्तुनिष्टचित अंतरप्रवाह सहायता वैतन्य कल्पना कर्म अर्म चैतन्यमूम अमूर्त सत्ता वर्त वस्तु अभीव्यक्स यहाँ शक्तिशेष भगिनी सम्यक् नूयते भिनी कदचि किञ्चित् पार्श्वे पार्श्वे आगच्छतु स्पीकर् मध्ये वदतु पुनः पठामा ज्ञानं चैतन्यं चेतना इदानीं श्रूयते श्रूयते ज्ञानं चैतन्यं चेतना एव पुरुषः इति अस्माभिः ज्ञायते एते पदेभ्यः ज्ञायते ज्ञायते यते एतेभ्यः पदेभ्यः कस्यचित् अस्तित्वम् अस्ति इति ज्ञायते परन्तु तस्य आकृतिम् वा रूपम् वा वयम् कल्पयितुम् न शक्नुमः अस्माकम् भावनायाः वस्तुनिष्ठचित्तस्य अन्तःप्रवाह साहाय्येन एव पुरुषस्य वा चैतन्यस्य वा केवलम् कल्पनाम् कर्तुम् अर्हामः अतः पुरुषः वा चैतन्यम् अमूर्तसत्ता वर्तते इति कृत्वा वस्तुनिष्ठाभिव्यक्तौ अस्माकम् मनसः द्वारा एव पुरुषस्य ज्ञानम् शक्यते यः प्रकृतिः शक्तिविशेषः अस्ति स इमाम् अमूर्तसत्ताम् गुणान्वितम् करोति अतः स केवलम् शक्तिः ऊर्जा बलम् तत्त्वम् वा इति अवगं शक्य कदि अस्म प्रकृति दु शक्य सह यदि सा जटतम अभी वस्तुगुक्त कौती तै रूप आकार वर्णयुम न शक्यते, अग्नि स्थूल पदार्थ वर्त अुण दाहकशक्ति युण स्थूल तथा सह न दृश्य वस्तुनः गुणः कीयान अपि स्थूलः स्या तथापि सूक्ष्मरूपेण एव सर्वदा भवति शक्तेः वा तत्त्वस्य वा कदापि आकारः भवितुं न अर्हति गुणः कदापि न दृश्यते वा न श्रूयते प्रकृतिः अपि अपूर्वाशक्तिः तत्त्वं सूक्ष्मसत्ता वर्तते प्रकृतिपुरुषो प्रकृतिपुरुषौ प्रकृति षो सामूहू ब्रह्म अम वर्तक्ष्मनम तदा अंतिम स्तरे मन तोत्रे विलीनमती अतः ब्रह्मणः किमपि रूपम् आकारः वा भवितुं न अर्हति न तस्य वर्णनं कर्तुं शक्यं, वा शक्यं। वा वा न वा तत् ता, कीदृशं वर्तते इति वक्तुं शक्यम् अतः ब्रह्म आकारहीनं वा रूपहीनं वा भवेत् तस्य वस्तुतः रूपं न भवितुम् अर्हति इदानीं मया सम्यक् न अवगतं किन्तु यद् अवगतं तत् वदामि अत्र वयं प्रकृते पुरुष रूपौ द्वे सप्त इति जानीमः किन्तु सः पुरुषः वस्तुतः आकारहीनरूपहीनरूपेण वर्तते तस्य किम् आकारः किं रूपम् इति वयं न जानीमः अतः तस्य कल्पना एव करोतु कर्तुं शक्नुमः प्रकृति पुरुष गुणावि करो वयं व जानी अतः कवल मनसी कल शक्यते। पुषा प्रकृति वमूर्त सत्ता वर्त है जान वो मनसी अंत, अंत अंतर्गत किंचितिज्ञा शक्य कल्पना कर्म शक्य कि व्यक्षेण इदम पुस्तक इदम द्वारी तथा प्रकृति पुरुष न किमपि वक्तुमिच्छति वा भगिनि अस्तु अस्तु इति इत्युक्ते क्लेशः अस्ति वा अत्र अवगमने प्रश्नः द्वयमस्ति एकं तु अमूर्त सता सप्ता इत्युक्ते किम् अनन्तरम् ऊर्जा इत्युक्ते किं महोदय ऊर्जा इत्युक्ते फोर्स् अथवा बलम् फोर्स् अथवा बलम् अमूर्तस मूर्तसत्ता इत्युक्ते यस्य आकारः वर्तते तस्य दर्शनं शक्यते अमूर्तसत्ता इत्युक्ते यस्य आकारः नास्ति तादृश मूर्तिः तस्य मूर्तिः इत्युक्ते आकारः नास्ति आकारारहितः पुरुषः अपि आकारारहितः प्रकृतिः अपि आकारारहिता इति aged, आकारा आकारा आकारा अत्र विषयः अस्ति अस्तु अत्र अयम् अनुच्छेदः अतीवमहत्वपूर्णः अस्ति यतोहि सम्पूर्णे विश्वे सर्वे सर्वत्र इत्युक्ते इत्युक्ते तत्र इत्युक्ते ईश्वरः इत्युक्ते सामान्यतया तत्र रिलिजियन्स् मध्ये वयं किं वदामः तत्र मूर्तिः इत्येव तत्र ईश्वरः इति तादृश अवगमम् अवगमनम् अस्ति परन्तु तत्र परिमितवस्तु कदापि भगवतः प्रतिनिधिः परमात्मनः प्रतिनिधिः भवितुं न अर्हति भगवतः प्रतिनिधिं कर्तुं न शक्यते तत्र तत्र आध्यात्मिक आध्यात्मिकसिद्धान्तः यद्वर्तते तत्र यद् अनादि अनन्तसत्ता वर्तते पुरुषः अनादि अनन्तसत्ता प्रकृतिः अपि तथैव तयोः इन्द्रियेण ग्रहणं न शक्यते पुरुषः वा प्रकृतिः वा इन्द्रिय इन्द्रियेण तयोः ग्रहणं न शक्यते इन्द्रियेण ग्रहणं कस्य शक्यते इति चेत् यद् यद परिमितवस्तु अस्ति यत् परिमितवस्तु लोके यत्किमपि वस्तु अस्ति परिमितवस्तु लिमिटेड् थिङ्ग्स् आब्जेक्ट्स् आफ़् द वर्ल्ड् तस्य ग्रहणं वयं कर्तुं शक्नुमः परन्तु अत्र पुरुषः अपि च प्रकृतिः पुरुषः पुरुषः इत्युक्ते चैतन्यं ज्ञानं इति एवं रीत्या वयं तस्य आकारः नास्ति अस्माकं चक्षुषा वयं द्रष्टुं न शक्नुमः नासिकया नासिकया वयं जिघ्रातुं न शक्नुमः अथवा येन केनापि इन्द्रियेन शब्दद्वारा वयं श्रोतुं न शक्नुमः रसद्वारा ज्ञातुं न शक्नुमः स्पर्शद्वारा ज्ञातुं न शक्नुमः परम अथवा प्रकृतिं तस्य तयोः आकारः नास्ति जगति अहं भवतीं द्रष्टुं शक्नोमि विजयाभगिनीम् अहं द्रष्टुं शक्नोमि यतोहि तस्याः आकारः अस्ति एज़् अ फार्म् परन्तु परमपुरुषस्य तादृश आकारः नास्ति कथं तर्हि अवगन्तुं शक्नुमः इति चेत् अस्माकम् अन्तर्भावनया एव तत् कथं भवति इति चेत् यदा साधनां वयं कुर्मः अस्माकं मनसः द्वारा अन्तः गच्छामः तदानीं तत्र वयं ज्ञातुं तस्य अनुभूतिं वयं प्राप्तुं शक्नुमः पर अनुभूतिं प्राप्तुं शक्नुमः तत्तु केवलं मनसः द्वारा एव भवति मनसः द्वारा यदा साधनां कुर्मः तदानीमेव भवति पुरुषः प्रकृतिः द्वयमपि अप्स्ट्राक्ट् अस्ति इत्युक्ते तस्य एवमेव इत्थमेव अस्ति इति वक्तुं न शक्नुमः पुरुषः एवमेव अस्ति प्रकृतिः एवमेव अस्ति इति वक्तुं न शक्नुमः तयोः अवगमनम् अस्माकं मनसः द्वारा एव भवति प्रकृतिः का इति चेत् प्रकृतिः तत्र त्रिगुणात्मिका अस्ति तस्य त्रयः गुणाः सन्ति सा शक्तिः अस्ति सा शक्तिः अस्ति बलम् अस्ति ऊर्जा अस्ति यस्य अस्माकं दर्शनं न शक्यते तथापि प्रकृतिः अस्ति इति वयम् अवगन्तुं शक्नुमः यतोहि सर्वान् सर्वान् पदार्थान् सा प्रकृतिः गुणान्वितान् करोति इदानीं जगति यद्यद्वस्तु अस्ति सर्वं गुणान्वितं गुणान्वितं भवति अस्माकं शरीरे अपि तत्र त्रिगुणाः सन्ति तत्त्वगुणः तमोगुणः रजोगुणः सन्ति इदानीं तत्र लौकिक तत्र अग्निं वयं पश्यामः चेत् अग्नौ शक्तिः वर्तते अग्नौ शक्तिः वर्तते एवं जगति यद्यद् यः यः पदार्थः अस्ति सर्वत्र गुणः अस्ति कश्चनगुणः तु अस्ति एव इदानीं तत्र पाषाणखण्डं पश्यामः चेत् पाषाणखण्डे तमोगुणः अस्ति यतोहि तत्र एकत्र स्थिरः अस्ति इदानीम् अस्माकं मनः वयं पश्यामः चेत् मन मनसि तत्र रजोगुणः अस्ति अथवा तव रजोगुणः अस्ति वयम् अवगन्तुं शक्नुमः यदा वयम् एकस्मिन् विषये अस्माकं मनसि अवधारयितुं न शक्नुमः इतः ततः यदा मनः भ्रमति तदानीं वयम् अवगन्तुं शक्नुमः मनसि रजोगुणः अस्ति अतः एव इतः ततः भ्रमति इति वयम् अवगन्तुं शक्नुमः एवम् अत्र जगति सर्वत्र गुणाः सन्ति एव तत्र इदानीम् अग्निः इति तत्र क्रूड् एव अस्ति जडपदार्थः एव अस्ति अग्निः तस्मिन् दहनशक्तिः अस्ति दहनशक्तिः अपि तत्र जड जडरूपेण एव अस्ति गुणः तत् इत्युक्ते तत्र अग्नौ दहनशक्तिः अस्ति इति अवगन्तुं शक्नुमः परन्तु दहनशक्तिं वयं द्रष्टुं शक्नुमः न शक्नुमः खलु अतः यस्मिन् कस्मिंश्चिदपि जडपदार्थे तत्र गुणः यः कोऽपि गुणः भवतु तस्य दर्शनं न शक्यते यतोहि तादृशपदार्थः बहुसूक्ष्मः अस्ति गुणः सूक्ष्मः अस्ति अतः तस्य दर्शनं न शक्यते तस्य आकारः नास्ति दहनशक्तेः आकारः नास्ति अतः तस्य दर्शनं न शक्यते तस्य श्रवणं न शक्यते प्रकृतिः तादृशी अद्वितीया अस्ति तथापि सा बहुसूक्ष्मसत्ता वर्तते सूक्ष्मसत्ता प्रकृतिः अपि तथैव पुरुषः अपि तथैव द्वयमपि सूक्ष्म सूक्ष्म सत्ते सः सूक्ष्मसत्ता सूक्ष्म सत्ता, सत्ता वर्तते द्वे अपि सूक्ष्मसत्ते सः इदानीं ब्रह्म इति अनयोः मिलित्वा नामकरणम् तर्हि प्रकृतिः अपि सूक्ष्मा प्रकृतिः अपि प्रकृति सूक्ष्मः सूक्ष्मा वर्तते पुरुषः अपि सूक्ष्मः वर्तते तर्हि ब्रह्म इति अपि सूक्ष्मः एव वर्तते यतोहि ब्रह्म तु द्वयोः नामकरणमेव अतः तयोः अवगमनं कथं भवति इति चेत् यदा मनसः यदा मनसः लीनम यदा मनः लीनं भवति यदा मनः पुरुषे लीनम भवति यदा मनः स्वस्य स्रोते लीनं भवति तदानीमेव भ्रह्मणः अवगमनं भवति ब्रह्मणः आकारः नास्ति तस्य अस्माकम् इन्द्रियेण अवगमनं न भवति इति कृत्वा अस्माभिः तस्य वर्णनमपि न कर्तुं शक्नुमः ओ प्रकृतिः एवम् अस्ति पुरुषः एवम् अस्ति इति वर्णनं कर्तुं न शक्यते ब्रह्म अपि आकारहीनः अस्ति ब्रह्मणः आकारः नास्ति तर्हि ब्रह्मणः अवगमनं कथं भवति ब्रह्मप्राप्तिः कथं भवति इति चेत् साधनाद्वारा ब्रह्मप्राप्तिः भवति यदा मनसः ये तत्र लेयर्स सन्ति खलु तत्र चित्तम् अहं तत्त्वं महत्तत्त्वं यदा चित्तम् अहं तत्त्वे लीनं भवति अहं तत्त्वं महत्तत्त्वे लीनं भवति महत्तत्त्वम् गत्वा तत्र महत्तत्वम् अन्ततो गत्वा पुरुषे यदा भवति तदानीं तत्र पुरुषस्य साक्षात्कारः ब्रह्मणः साक्षात्कारः तदानीं भवति साधनाद्वारा यदा वयम् अन्तः गच्छामः मनसः अन्तः गच्छामः तदानीं पुरुषस्य अनुभूतिः भवति इति वयम् अवगच्छामः तावदेव वयमवगन्तुं शक्नुमः तस्य इतोपि वर्णनं कदापि न शक्यते यतोहि इन्द्रियेन द्रष्टुं न शक्यते इदानीम् अवगतं वा भगिनी आम् महोदय आम अस्तु अस्तु हा कोऽपि प्रश्नः नास्ति चेत् किञ्चित् अग्रे गच्छामः तर्हि भवति एव करोतु पूर्वम् उक्तं यत् जीवा जीवात्मानि प्रकृतेः सत्त्वगुणस्य प्रभावेण बुद्धितत्वस्य निर्माणं भवति इति बुद्धितत्वे प्रकृतेः रजोगुणस्य प्रभावेन अहं तत्त्वस्य निर्माणं भवति अन्ततो गत्वा च अहं तत्त्वे प्रकृतेः तमोगुणस्य प्रभावेन चित्तस्य निर्माणं भवति चित्तस्य निर्माणम् अहं तत्त्वाधीनं भवति यतः अहं तत्वे प्रकृतेष्यामि प्रभावेन एव चित्त अस्तिवि तस्त न स्वतंत्र यदि प्रकृते तमोगुण अहम तत्व प्रभावित नक्नो अथवा अहम तत्व निवर्त तरी चित्त निर्माण नरंतु चित्ता वर्तव अह तकृत अभाव चर्चते कृतेः तमोगुणः अहं तत्त्वं न प्रभावयति इत्यर्थः अहं तत्त्वस्य अस्तित्वं चित्तस्य अस्तित्वम् इव अस्तित्व अभावम् वा आश्रित्य न तिष्ठति अहं तत्त्वं चित्तात् स्वतन्त्रं वर्तते यदि अस्माभिः अहं तत्त्वे अपि सः एव तर्कः विनियुज्यते तर्हि वयं द्रष्टुं बुद्धितत्त्वे प्रकृतेः रजोगुणस्य प्रभावाधीनं वर्तते अहं तत्त्व परन्तु बुद्धितत्वस्य अस्तित्वम् अहं तत्त्वस्य अस्तित्वं वा अस्तित्व अभावं वा आश्रित्य न वर्तते बुद्धितत्वम् अहं तत्त्वं स्वतन्त्रम् तथैव बुद्धितत्वम् अस्तित्वम् अनुचैतन्ये प्रकृतेः तत्त्वगुणस्य प्रभावम् आश्रित्य भवति परन्तु अणुचैतन्यस्य तु अस्तित्वं बुद्धितत्वात् स्वतन्त्रम् यथा अयसः पेषणं कृत्वा अयसः पात्रविशेषं निर्मातुं शक्यते परन्तु तस्य अर्थः न भवति यत् यदि नास्ति तर्हि अह अयसः अपि अस्तित्वं न भविष्यति यथा तत् पात्रविशेषः अयो निर्मितः तथा च अयो अधीनाः भवति परन्तु तत् पात्रविशेषः नास्ति चेदपि अयः अतः अयसः अस्ति पात्रविशेषस्य अस्तित्वत् स्वतन्त्रत्वम् अस्ति तथैव अनुचैतन्यम् उद्धितत्वात् स्वतन्त्रं चित्तात् बुद्धितत्वपर्यन्तं सर्वाणि भिन्नानि रूपाणि अणुचैतन्यम् आश्रित्य तिष्ठन्ति यतोहि एतेषां प्रत्येकम् अस्तित्वं परस्परम् आश्रित्य भवति परन्तु वयं द्रष्टुं शक्नुमः यत् एतेषु भिन्नेषु रूपेषु कमपि रूपम् आश्रित्य चैतन्यस्य अस्तित्वं नास्ति वस्तुतः वयं तादृशं वस्तु किमपि न प्राप्नुमः यस्मिन् चैतन्यस्य अस्तित्वम् आश्रितं भवति अतः चैतन्यं सर्वदा स्वतन्त्रम् अस्ति अत्र अत्र वयं प्रक्रियां पुन पूर्वमपि दृष्टवन्तः तत्र प्रकृतेः पुरुषैस्तः प्रकृतेः प्रभावेण पुरुषस्य विभिन्नरूपान्तरणं भवति यदा सत्त्वगुणप्रभावस्य वर्तते तदा महत्तत्त्वम् अहम् अस्मि इति जायते तदानीं यदा अहं तत्त्वस्य उपरि प्रकृतेः प्रजोगुणः प्रभावः भवति तदा अहं तत्त्वं वर्तते यदा तमोगुणः प्रभावः वर्तते तदा चित्तरूपेण अहं तत्त्व एव परिवर्तते किन्तु आ, विप्रीतं न भवति यदा चित्त अहं तत्त्वस्य सत्ता चित्तसत्त चित्तसत्ता उपरि उपरि न आश्र आश्रितम् अस्ति यदा चित्तं न वर्तते तदा एव अपि तत्त्वं सत्ता वर्तते एव तथैव यदा अहं uh, महत्तत्त्वस्य सत्ता अहम तत्व उपरी न आश्र अहम तत्व चेत महत सत्ता वर्त है तथा यदा महत्व सत्ता नीती तथा अणुचतन से सत्ता वर्त है यहास निर्मता कोऽपि पदार्थ कोऽपि पात्रः वर्तते सा पात्रः नास्ति चेदपि अयसः सत्ता वर्तते एव अणुचैतन्यं सर्वथा स्वतन्त्ररूपेण वर्तते एव किन्तु प्रकृतेः प्रभावेण एव भिन्नभिन्नरूपान्तरणं प्राप्नोति किन्तु तस्य सत्ता किमपि उपरि न आश्रितं भवति हा सम्यक् भगिनी बहु समीचीनं सम्यक्तया उक्तवती अवग अवगतवती सम्यक्तया अपि समीचीनम् इति एव विषयः अत्र अस्ति यद्भवती उक्तवती क्षम्यता इत्युक्ते तत्र सर्वेषु तत्र मनसः ये भागाः सन्ति तेषु किमपि स्वतन्त्रं नास्ति इति कृत्वा वयम् अवगन्तुं शक्नुमः मनः इति यः विषयः अस्ति सः स्वतन्त्रः नास्ति सर्वदा मनः अणुचैतन्यम् आधारीकृत्य भवति तस्य स्वातन्त्र्यं नास्ति इत्युक्ते मनसः मनः कारणरहितः नास्ति कारणसहितः अस्ति तस्य कारणमस्ति मनसः कारणमस्ति मनसः कारणं तत्र अनुचैतन्यात् एव मनः निर्मितः प्रकृतेः प्रभावेन तर्हि मनः सादिः अस्ति शान्तः अस्ति तस्य सा आदि आदित्वमपि अस्ति अन्तत्वमपि अस्ति इत्युक्ते मनस् मनः नित्यं नास्ति नित्यवस्तु नास्ति परन्तु इत्युक्ते न केवलं मनः अस्मिन् जगति किमपि नित्यं नास्ति किम् अन्ततो गत्वा नित्यवस्तु नित्यपदार्थः इति चेत् केवलं पुरुषः एव नित्यपदार्थः अस्ति तर्हि मनः कम् आधारीकृत्य अस्ति इति चेत् मनः तु अणुचैतन्यम् आधारीकृत्य एव अस्ति अणुचैतन्यं नास्ति चेत् मनः नास्ति तर्हि मनः मनसः ये भागाः सन्ति तत्रापि अन्ततो गत्वा अन्ततो वयं गच्छामः चेत् मनसः ये भागाः सन्ति तेषु अपि वयं पश्यामः चेत् चित्तं तु अहं तत्त्वम् आधारीकृत्य अस्ति अहं तत्त्वं तु मत्तत्त्वम् आधारीकृत्य अस्ति महत्तत्त्वं तु अणुचैतन्यम् आधारीकृत्य अस्ति अणुचैतन्यं कमपि आधारीकृत्य नास्ति इत्युक्ते यदा कदलीफलं वयं स्वीकुर्मः चेत् कदलीफलं कदलीफलस्य ये ये भागाः सन्ति तत्र बाह्यभागाः ये सन्ति एकैकं वयं निष्कासयामः चेत् अन्ततो अन्ततो वयं यदा गच्छामः चेत् अन्ततो गत्वा तत्र किञ्चित् लघुरूपेण किमपि अस्ति खलु तदेव तत्र अणुचैतन्यम् इति वयं स्वीकुर्मः तत् स्वतन्त्ररूपेण अस्ति तत्रैव तिष्ठति अतः यदा बाह्यवस् बाह्यभागाः अवयवाः ये सन्ति तेषां निष्कासनं यदा भवति तद् अन्ततो गत्वा यद् लघुरूपेण तत्र श्वेतरूपेण लघुरूपेण अन्ते भवति तदेव अनुचैतन्यम् इति वयं मन्यामहे चेत् तद् स्वतन्त्र तस्य तद स्वातन्त्र्यमस्ति तद् किमपि आधारीकृत्य नास्ति स्वतन्त्ररूपेण तिष्ठति परन्तु बाह्य ये अवयवाः सन्ति ते अवयवाः अन्ते यद् चैतन्यम् तद् आधारीकृत्य स्वा... अस्ति इति वयम् अवगन्तुं शक्नुमः मनसः निर्माणं कथं जातम् इति तु वयं ज्ञातवन्तः बहुवारम् अस्माभिः उक्तं तर्हि अत्र मुख्यविषयः कः इति चेत् अत्र ब्रह्म अनादि अनन्तसत्ता न केवलम् अनादि अनन्तसत्ता वर्तते अपि तु स्व तस्य अस्ति कमपि आधारीकृत्य नास्ति तत्र पुरुषः कमपि आधारीकृत्य नास्ति स्वतन्त्रः अस्ति पुरुषः तस्य आरम्भः नास्ति अन्तः नास्ति अन्यस्य अधीनं नास्ति पुरुषः अन्याधीनं नास्ति परन्तु मनः तथा नास्ति मनसः यः कोऽपि भागः भवतु तस्य अन्यस्य अधीनम् अस्ति मनः नित्य नित्यपदार्थः नास्ति अन्येषु शास्त्रेषु मनः नित्यः इति इत्युक्ते तत्र नैयायिकाः मनः नित्य नित्यवस्तु इति वदन्ति परन्तु तथा नास्ति मनसः अन्तः अस्ति आदिः अपि अस्ति अन्तः अपि अस्ति मनसः प्रत्येकं भागः अन्यम् आश्रित्य अस्तित्वं प्राप्नोति परन्तु पुरुषः तथा नास्ति पुरुषः कस्यापि आश्रये नास्ति अस्तु अत्र कोऽपि प्रश्नः अस्ति वा तर्हि अद्य अत्रैव स्थगनं कुर्मः कोऽपि प्रश्नः अस्ति अस्तु एकक्षणं मा गच्छन्तु एकक्षणम् अहं करोमि रेकार्डिङ्ग्